अथ श्रीबृहन्नारदीये महापुराणि पुरुषोत्तममासमाहात्म्ये श्रीनारायण नारदसंवादे प्रश्नविधिर्नामद्वितीयोऽध्यायः सूत उवाच राज्ञा पृष्टं शुकेनोक्तं श्रीमद्भागवतं परं शुकप्रसादात्तच्छ्रुत्वा दृष्ट्वा राज्ञो अत्राहमागतो विप्रान् सत्रोद्यमपरायणान् द्रष्टुकामः कृतार्थोऽहं जातो दीक्षितदर्शनात् ऋषय ऊचुः साधो वार्तान्तरं त्यक्त्वा अपूर्वं यत्तुश्रुतं त्वया कृष्णद्वैपायनमुखाद् यच्छ्रुतं तद्वदस्वनः सारात्सारतरां पुण्यां कथामात्मप्रसादनीं पायस्व महाभागसुधाधिकतरां परां सूत उवाच विलोमजोऽपि धन्योऽस्मि यन्मां पृच्छद सत्तमाः यथा ज्ञानं प्रवक्ष्यामि यच्छ्रुतं व्यासवक्त्रतः एकदा नारदोऽ गच्छन् नरनारायणालयं तापसैर्बहुभिर्सिद्धैर्देवैरपि निषेवितं बदर्यक्षामलैर्विल्वैर् आम्रैराम्रातकैरपि कपित्थैर्जम्बुनीपाद्यैर्वृक्षैरन्यैर्विराजितम् विष्णुपादोदके पुण्या लक्नन्दास्ति यत्र च तत्र गत्वा नमद्देवं नारायणमहामुनिं परब्रह्मणि संलग्न मानसं च जितेन्द्रियं जितारिषट्कममलं प्रस्फुरत् बहुलप्रभं नमस्कृत्वा च साष्टाङ्गं देवदेवं तपस्विनम् कृताञ्जलिपुटो भूत्वा तुष्टावनारदो विभुम् नारद उवाच देवदेवजगन्नाथ कृपाकुपारसत्पति सत्यव्रतस्त्रिसत्योऽसि सत्यात्मा सत्यसम्भवः सत्ययो ने नमस्तेऽस्तु त्वामहं शरणं गतः तपस्ते मर्यादास्थापनाय च यथैकेन कृतात् पापात् कलौ मज्जति मेदिनी तथैवैककृतात् पुण्यात् तरतेयं न संशयः कृतादिषु यथा पूर्वम् एकरं तत्समस्तगम् तादृक्स्थितिं निराकृत्य कलौकर्तैव केवलं लिप्यते पुण्यपापाभ्याम् इति ते तपसि स्थितिः भगवन्प्राणिनः सर्वे विषयासक्तमानसाः दारापत्तिगृहासक्तास्तेषां हितकरञ्च यत् ममापि हितकृत किञ्चिद् विचार्य त्वन्मुखातु विष्णुरितिवेदल्लोकोपकाराय कथासारं वदाधुना यस्य श्रवणमात्रेण निर्भयं विन्दति पदम् नारदस्य वचः श्रुत्वा प्रहस्य भगवान् ऋषिः कथां कथितुमारेभिः पुण्यां भुवनपावनीनारायण उवाच गोपाङ्गनावदनपङ्कजषट्व रासेश्वरस्य रसिकाभरणस्य पुंसः वृन्दावने विहरतो व्रजभर्तुरादेः पुण्यां कथां भगवतः शिणुनारद त्वम् चक्षुर्निमेषपततो जगतां विधातां तत्कर्मवत्सकथितुं भुवि कः समर्थः त्वञ्चापि नारदमुनि भगवच्चरित्रं जानासि सारसरसं वचसमगम्यं तथापि वक्षे पुरुषोत्तमस्य माहात्म्यमत्यद्भुतमादरेण दारिद्रवैधव्यहरं यशस्य सत्पुत्रदं मोक्षदमाशु सेव्यं नारद उवाच पुरुषोत्तमस्तु को देवो माहात्म्यं तस्य किं मुनि अत्यद्भुतमिवाभाति विस्तरेण वदस्वमि सूत उवाच नारदोक्तं वद श्रुत्वा मुनिर्नारायणोऽब्रवीत् समाधाय मनः सम्यक् मुहूर्तं पुरुषोत्तमे श्रीनारायण उवाच पुरुषोत्तमेति मासस्य नामाप्यस्ति स हेतुकं तस्य स्वामी कृपासिन्धुः पुरुषोत्तम उच्यते ऋषिभिः प्रोच्यते तस्मान् मासश्रीपुरुषोत्तमः तस्य व्रतविधानेन प्रीतः स्यात् पुरुषोत्तमः नारद उवाच सन्ति मध्वादयो मासेश्वरास्ते श्रुतामज तन्मध्ये न श्रुतो मास पुरुषोत्तमसंज्ञकः पुरुषोत्तमस्तुको मासस् तस्य स्वामीकृपानिधिः पुरुषोत्तमः कथं जात तन्मे ब्रूहि कृपानिधिः स्वरूपं तस्य मासस्य सविधानं वद प्रभो किं कर्तव्यं कथं स्नानं किं दानं तत्र सत्पति साधनं किञ्च भण्यतां तुष्येत्कृते कृतेनको देव देवः किं फलं वा प्रयच्छति एतदन्यच्च यत्किञ्चित् तत्त्वं ब्रूहि तपोधन अनापृष्टमपि ब्रूयुः साधबोदीनवत्सलाः नराये भुविजायन्ते परभाग्यानुवर्तिनः दारिद्र्यपीडिता नित्यं रोगिणः पुत्रकाङ्क्षिणः जडाबूकादाम्भिकाश्च हीनविद्याः कुचैलिनः नास्तिकालम्पटादी च जर्जराः परसेविनः नष्टाशा भग्नसङ्कल्पाः क्षीणतत्त्वाकुरूपिणः रोगिणः कुष्ठिनो व्यङ्गां नेत्रहीनाश्च केचन इष्टमित्रकलत्राप्त पितृमातृवियोगिनः शोकदुःखातिशुष्काङ्गोकदुःखातिशुष्काङ्गेष्टवस्तुविवर्जिताः पुनर्नैवं विधास्ते स्युर्यत्कृतेन श्रुतेन च पठितेनानुचीर्णेन तद्वदस्व मम प्रभु वैधव्यं वन्द्यता दोषं हीनाङ्गत्वदुराधय रक्तपित्ताद्यपस्मार राजयक्ष्मादयश्च ये एतैर्दोषसमूहैश्च दुःखितोऽस्मि जगन्नाथ कृपाम् कृत्वा ममोपरि विस्तरेण वद ब्रह्मन् मन्मनोमोदहेतुकं सर्वज्ञः सर्वतत्वानां निधानं त्वमसि प्रभु सूत उवाच इति विधितनयोदितं रसालं जनहितहेतुनिशम्य देवदेव अभिनवघनरावरम्यवाचं वददभिभवज्य मुनिं सुधांशु शान्तम् इति श्रीबृहन्नारदीये पुराणि पुरुषोत्तममासमाहात्मे श्रीनारायण नारदसंवादे प्रश्नविधिर्नामद्वितीयोऽध्याय श्रीपुरुषोत्तमार्पणमस्तु